नारायणीयं दशकं नैन्टिसिक्स् मीटर श्रद्धरा त्वं हि ब्रह्मैव साक्षात् परमुरुमहिमन्नक्षराणामकारस्तारो मन्त्रेषु राज्ञां मनुरसि मुनिषु त्वं भृगो नारदोऽपि प्रह्लादो दानवानां पशुषु च सुरभिः वैनदेयो नागानामस्य नन्दः च स्रोतसां विश्वमूर्ते ब्रह्मण्यानां बलिस्त्वं क्रतुषु च जपयज्ञोऽसि वीरेषु पार्थो भक्तानामुद्धवस्त्वं बलमसि बलिनां धाम तेजस्विनान् त्वं नास्त्यन्तस्त्वद्विभूतेर्विहसदतिशयं वस्तु सर्वं त्वमेव त्वं जीवस्त्वं प्रधानय्यदिह भवदृते तन्न धर्मं वर्णाश्रमाणां श्रुतिपथविहितं त्वत्परत्वेन भक्रिया कुर्वन्तोऽन्तर्विरागे विकसति शनकैः सन्त्यजन्तो लभन्ते सत्ता स्फूर्तिप्रियत्वात्मकमखिल पदार्थेषु भिन्नेषु अभिन्नन्निर्मूलं विश्वमूलम् परममहमिति त्वद्विबोधम् विशुद्धम् ज्ञानं कर्माभिभक्तिस्तृदयमिह भवत्प्रापकन् तत्र तावन्निर्विण्णानामशेषे विषय इह भवेत् ज्ञानयोगेऽधिकारः सक्तानां कर्मयोगस्त्वयि हि विनिहितो ये तो नात नाप्यम विरक्तायिजधृतरसा भक्ति गो्यमीषा ज्ञानंवदाबाखुसुदा लोके लस्मा जन्मस्पृहदि भगवन्ना नाकगो। को वा आविष्टं मान्दुदैवात् भवजलनिधिपो तायिते दे, मर्त्यदेहे त्वम् कृत्वा कर्णधारं गुरुमनुगुणवा तायितस्तारथाः अव्यक्तं मार्गयन्धश्रुतिभिः पि न ह्यैः केवलज्ञानलुब्धाः क्लिश्यन्तेदीवसिद्धिं बहुधरजनुषां मन्दवाप्नुवन्ति दूरस्थकर्मयोगोऽपि च परमफले नन्वयम्भक्रियोगस्त्वामूलादेवहृद्यस्त्वरिदमयि भवत्प्रापको वर्धता मे ज्ञानायैवादियत्नम् मुनिरपवदते ब्रह्मतत्त्वन्तु शृण्वन् गाढन्त्वत्पादभक्तिं शरणमयदियस्तस्य मुख्रिकराग्रे त्वद्ध्यानेऽपिहतुल्या पुनरसुखरदा चित्तचाञ्चल्यहेदोरभ्यासादाशु शक्यं तदपि वशयुंपचारुताभ्यार्विणकर्मे खलु विषमत कर्ममार्गे कथाद त्वत्कधा द्रद्धपि का कामयि भुवन पदे नक्नोमी हादुं तूयो निश्चय नयि निहितमना दोषुजाना पुष्णीयां भक्तिमेव त्वयि हृदयगदे मङ्क्षु नङ्क्ष्यन्ति सङ्गाः कश्चित् क्लेशार्जितार्थक्षयविमलमदिर्नुद्यमानो जनौखैः प्रागेवं प्राहविप्रो न खलु मम जहकालकर्मग्रहा वा चेतो मे दुःखे दुस्तदिह गुणगणं भावयत्सर्वकारीत्युक्त्वा शान्तोकतस्त्वां मम च कुरु विभो तादृशीञ्चित्तशान्तिम् ऐलः प्रत्यदिविवशमनाः सेवमानश्चिरन्ताङ्गाढन्निर्विद्यभूयो युवति सुखमिदं क्षुद्र मे वेदि गायन् त्वद्भक्तिं प्राप्य पूर्णः संक्रियामां। तद्वदुद्धूदसङ्गं भक्तो पवनपुरपदे हन्त रुन्धिरोगान् सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द